अथ श्रीमहाभारते आदिपर्वणि सप्तषष्ट्यधिकशततमोऽध्यायः वैशम्पायन उवाच एतच्छ्रुत्वा तु कौन्तेया ब्राह्मणात् संशितव्रतात् सर्वे च स्वस्थमनसो बभूवुस्ते महाबलाः ततः कुन्तीसुतान् दृष्ट्वा सर्वान्स्तद्गतचेतसः युधिष्ठिरमुवाचेदं वचनं सत्यवादिनि कुन्त्युवाच चिररात्रोषितास्मेह ब्राह्मणस्य निवेशने रममाणाः पुरे रम्ये लब्धभैक्ष्या महात्मनः यानीह रमणीयानि वनान्युपवनानि च सर्वाणि दृष्टानि पुनः भैक्षं च न तथा वीरलभ्यते कुरुनन्दन ते वयं साधु पञ्चालान् गच्छाम यदि मन्यसे अपूर्वदर्शनं वीररमणीयं भविष्यति सुभिक्षाश्चैव पञ्चालाः श्रूयन्ते शत्रुकर्शन यज्ञसेनश्च राजासौ ब्रह्मण्य इति शुश्रुम एकत्र चिरवासश्च क्षमो न मम ते तत्र साधु गच्छामो यदित्वं पुत्रमन्यसे युधिष्ठिर उवाच भवत्यायन्मतं कार्यं तदस्माकं परम् हितम् अणुजांस्तु न जानामि गच्छेयुर्नेति वा पुनः वैशम्पायन उवाच ततः कुन्तीभीमसेनमर्जुनम् यमजौ तथा उवाच गमनम् ते च तथेत्येवाब्रुवंस्तदा तत आमंत्र विप्रुती राजुत सह प्रतस्थे श्री महाभारते नगरीम्रम्या्रुपदस्थ्य महात्महाभारवण महा चैत्ररथपर्वणि पंचालाशयात्रायाप्तष्ट